श्रीहरये नमः अथ चतुर्विंशोऽध्यायः श्रीशुक उवाच अधस्तात्सवितो योजनायुते स्वर्भानुर्नक्षत्रवच्चरति इत्येके योसावमरत्वं ग्रहत्वं चालभत भगवदनुकम्पया स्वयमसुराबसधस् संहिकेयो ह्यतदर्हस्तस्य तात जन्म कर्माणि वक्ष्यामः यदतस्तरणेर्मण्डलं प्रतपतस्तद्विस्तरतो यो जन अयुतमा चक्षते द्वादश सहस्रं सोमस्य त्रयोदश सहस्रं पर्वणि तत् व्यवधानकृ वैरानुबद्ध सूर्याचन्द्रमसौ अभिधावति तन्नि भयत्रापि भगवता प्रयुक्तं सुदर्शनं नाम भागवतं दयितमस्त्रं तत्तेजसा दुर्विषहं मोहोपरिवर्तमानम् अभ्यवस्थितो मुहूर्तम् उद्विजमानश्च हितहृदय आरा देवनिवर्तते तत् उपरागमिति वदन्ति लोकाः ततोधस्तात् सिद्धचारणविद्याधराणां सधनानि तावन्मात्र एव ततो धस्तात् यक्षरक्षपिशासप्रेतभूतगणानां विहाराजिरम् अन्तरिक्षं यावत् वायु प्रभाति यावन्मेघा उपलभ्यन्ते ततो धस्तात् इयं पृथिवी यावत् हंस पदत्रिप्रवराती उत्पतन्तीति उपवर्णितं भूमेता संनिवेश वस्थानम् अवने अप्यदेष्टात् सप्त भूवि वरा एकैकसो योजनायुतान्तरेणायामविस्तारेणे उपक्लृप्ता अतलम् वितलं सुतलम् तलातलं महातलं रसातलं पातालमिति एतेषु हि बिलस्वर्गेषु स्वर्गात् अप्यधिगकाम भोकैश्वर्यानन्दभूतिविभूतिभिः सुसमृद्धभवनोत्याना क्रीड विहारैत्य धानव का द्रवे या प्रमुदिता कल्य भंत सुहृदनुचरा गृहपतयईश्वरादपि अप्रतीकतकामायाविनोदानि वसन्ति येषु महाराजमयेन मायाविना विनिर्मिताः पुरो नाना मणिप्रवर प्रवेकविरचितविचित्रभवन प्राकारकोपुरसभा चैत्य सत्वरायतनादिभिर्नागासुरमिथुन पारावतसुखसारिकाकीर्ण कृत्रिम भूमिभिर्विवरेश्वर उद्यानानि चातितरां मन इन्द्रियानन्दिभिः कुसुमफलस्तभगसुभग किसलय अवनतरुचिरविटभ विडबिनां लताङ्गालिङ्गितानां श्रीभिः समिथुन विविधविहङ्गम जलाशयानाम् अमलजलपूर्णानाम् जशकुलोल्लङ्घनक्षुभीतनीरनीरज कुमुदकुवलयकल्हार नीलोत्पललोहितशतभत्राभिवनेषु कृतनिकेतनामेक विकाराकुलमधुरविधस्वनादिभिं इन्द्रियोत्सवे अमरलोकश्रियम् अतिशयितानि यत्र ह वापनभयमहोरात्रादिभिं कालविभाकैरुपलक्ष्यते सर्वं तमः प्रबाधन्ते न भाये तेषु वसतां दिव्यौषधी रसरसायन अन्नपानं नानादिभि आधयो व्याधयो बलीपलितजराधयश्च देहवैवर्ण्यधौर्गन्त्यस्वेधक्लम क्लानिरिति वयोवस्ताश्च भवन्ति न हि प्रभवति कुतश्चन मृत्युर्विना भगवत्तेजसश्चक्राभदेशात् यस्मिन् प्रविष्टे असुरवधूनाम् प्राह्य पुंसवनानि भया देवस्रवन्ति च अधातले मयपुत्रोऽशुरो भलो निवसति येन कायिः सृष्टा षण्णवतिर्माया काश्चन अद्यापि माया विना धारयन्ति यस्य च जृम्भमाणस्य मुखतस्त्रय श्रीगणा उदभ्यन्त यावै वै बिलायनं प्रविष्टं पुरुषं रसेन हाटकाक्येन साधयित्वा स्वविलास अवलोकन अनुरागस्मितसंलापोपगुह नादिभिः स्वैरं किल रमयन्ति यस्मिन्नवुपयुक्ते पुरुष ईश्वरोऽहं महागजबलमात्मानम् अभिमन्यमानकथते मधान्त इव ततो दस्तात्वितले हरो भगवान् हाटकेश्वरस्वपार्षदा भूतगणावृत प्रजापति सर्गोप बृंहणाय भवो भवान् य सखमीतुनीभूत आस्ते यथ प्रवृत्ता सरित्प्रवरा भाटकी नाम भवयोर्वीर्येण <laughs> यत्र चित्र भोर्माधरिस्त्वना समिध्यमानवोजसा पिबति तन्निष्ट्युतं हाटकाख्यं सुवर्णं भूषणेन असुरेन्द्रावरोधेषु पुरुषान् सह ततोदस्तात्सुतले उदारश्रवा पुण्यश्लोको विरोचनात्मजो बलिर्भगवता महेन्द्रस्य प्रियं चिकीर्षमाणेन अधिधेर्लब्धकायो भूत्वा वटुवामनं रूपेण पराक्षिप्तलोकत्रयो भगवदनुकम्पयैव पुनः प्रवेशिता इन्द्रादिशो अविद्यमानया सुसमृद्धया प्रियाभिजुष्टन् स्वधर्मेण आराधयन्तमेव भगवन्तम् आराधनीयम् अभगतन् साद्वस आस्ते अधुनापि नो यैतत् साक्षात्करो भूमिदानस्य यत्तत् भगवत्यशेष जीवनिकायानां जीवभूतात्मभूते परमात्मनी वासुदेवे तीर्थतमे सर्वजीवनि यन्त्रात्मारा मे पात्र उपपन्ने परया श्रद्धया परमादरसमाहितमनसा साक्षात् अपवर्घ द्वारस्य यद्भिल निलयैश्वर्यम् यस्य ह वा भक्षूतपथन प्रस्खलनादिशो विभसत्सकृत नामाभि गृणन् पुरुषकर्मभनम् अञ्जसा विधुनोति मुमुक्षव अन्यतै वोपलभन्ते तत् भक्तानाम् आत्मवतां सर्वेषाम् आत्मनि आत्मद आत्मतयैव न वै भगवान् नूनम् अमुष्यान् आजग्राह यधुन पुनरात्मानुस्मृतिमोषणं मायामय भोगैश्वर्यमेव आतनुतेति यत्य भगवता अनधिगतान्योपायेन याञ्छाञ्चलेन अपहृत स्वशरीरावशेषित लोक त्रयो भरुण पासैश्च सम्प्रतिमुक्तो गिरिधर्यां चापविद्ध इति कोवाच नूनं बधायम् भगवानार्तेषु न निष्णातो योऽसाविन्द्रो यस्य शिवो मन्त्राय व्रत एकान्ततो अधिहाय स्वयम् उपेन्द्रेण आत्मानम् अयाचत आत्मनश्च आशिषो न एव तद्दास्यम् अधिगम्भीरवयसकालस्य मन्वन्तर परिवृत्तं कियल्लोकत्रयमिधं यस्यानुधास्यमेव अस्मत्पितामहः किल वव्रे नदोस्वपित्र्यम् यदुत अकुतो भयं पदं दीयमानं भगवतः परमिति भगवतो परते खलु स्वपितरीं तस्य महानुभावस्य अनुपथम् अमृजितकषाय अस्मद्विदः परिहीण भगवदनुग्रह उभजिगमिषतीति तस्यानुचरितं उपरिष्ठात् विस्तरिष्यते यस्य भगवान् स्वयमखिल जगद्गुरुर्नारायणोद्धारी गतापाणि अवतिष्ठते निजजन जन अनुकम्पितःहृदयो येन अङ्गुष्ठेन पदा दसगन्धरो ततो धस्ता तलातले मायो नाम दानवेन्द्रस्त्रिपुराधिपतेर्भगवता पुराणिना त्रिलोकीशं चिकीर्षुणा निर्धक्तस्वपुरत्रयस्तत् प्रसादात् लब्धवधो मायाविना आचार्यो महादेवेन परिरक्षितो विगते सुदर्शनभयोमहीयते ततो धस्तान्महादले गात्रवेयाणां सर्पाणां नैकशिरसां क्रोधवसो नाम गणकुहक दक्षककाळीय सुषेनादी महाभोगवन्त पधिराज अधिपतेः पुरुषवाहात् अनवरतम् उद्विजमानाः स्वकलत्रापत्य सुहृत् कुटुम्बसंज्ञेन क्वचित् प्रमत्ता विहरन्ति ततो दस्तात्र सातले दानवापणयो नामनिवातकवचाः काले या हिरण्यपुरवासिनगिति विबुधप्रत्यनीकावुत्पत्त्या महौजसो महासाकसिनो भगवतः सकललोकानुभावस्य हरेरेव तेजसा प्रतिशतपला भले विलेशया इव वसन्ति ये वैसरमयेन्द्रदुद्या वाग्भेर्मन्त्रवर्णाभि इन्द्राद्भिव्यति ततोदस्तात्पादाळे नागलोकपतयो वासुकिप्रमुखा कुलिकमहासङ्कश्वेत धनञ्च य धृतराष्ट्र शङ्कचूडकम्बलास्वतरदेवदधाधयो महाभोहिनो महामर्षा निवसन्ति येषामुह वै पञ्चसप्त पणासु विरचिता महामणयो रोचिष्णवः पातालविवरतिमिरनिकरं स्वरोचिषा इति श्रीभागवते महापुराणे पञ्चमस्कन्ते पारमहंस्यां संहितायां बिलस्वर्ग राह्वातिस्थितिविलस्वर्गमर्यादानिरूपणं नाम चतुर्विंशोऽध्यायः सर्वत्र गोपिका जीवनस्मरणं गोविन्द गोविन्द सदगुररात मघराज की जय